ेव स प्रजापतिरेकः पुष्करपन्ने समभवते तस्यान्तर्मनसि कामः समवर्तत हि जगम् ह्रियेति तस्माद्यत्पुरुषो मनसाभिगच्छति तद्वाचा वदति तत्कर्मणा तद करोति तदेशाभ्यनो भोक्ता कामस्तदग्रे समवर्तताधि मनसो एकः प्रथमम् ततो बन्धवसजलरविन्दन् हृदप्रदेश्या कमयोमनिषेति उपैनन्तदुपनमति यत्कामो भवति य एवम् वेद स ततोदर्प्यता सतपस्तप्त्वा शरीरमधूनता तस्य यन्मार्गम् समासीत् ततो ऋणा केदपोपादरशनाशयोपतिष्ठन् येन खानाः केवैखानसाः ये बालाः देवालक्षिल्याः योरसः सोऽ अन्तरतः कूर्मम् भूतकम् दर्पन्तम् तमब्रवीत् मम वेत्त्वम् मापुंसा समभूत् नैत्यब्रवीत् पूर्वमेवारमिरासमिरे अद्बुरुषस्य पुरुषत्वम् स्वसहस्रशीर्षः पुरुषः सहस्राक्षःसहस्रपात् भोत्वोतिष्ठत् कलमब्रवीत् ै पूर्वकम् समभोः स्वमिदम् पूर्वः कुरुष्वेदि स इदायामः अङ्गरिणा पुरस्तादुपादधात् एवाह्येवेदि दे। सदा नित्यमुदतिष्ठत् स प्रागेदिक अथारुणः केतुर्दक्षिणतमुपादधात् एवाह्यज्ञैः दे। ततो वाज्ञबुदतिष्ठत् दे। स दक्षिणादिग अथारुणः एवाहि वायु इति ततो वायुरुपतिष्ठते सा प्रतिचेतुके अथार्णः केतुर्परिष्ट उपार्थात् एवाहीन्द्र इति ततो वा इन्द्रमुदतिष्ठते सोदीचेतुके अथारुणः केतुर्मध्य उपारुधात् एवारिपूषण्ति ततोऽपि पूषो च तिष्ठते सेयन्दिके अथार्णः केतुर्परिष्टादुपाधात् एवारिदेवादिति ततो एव मनुष्याः पितरः गन्धर्वाः सरदस्थोचतिष्ठन् सोऽर्ध्वादिक या विप्रषो विपरापदन् ताभ्योदारक्षाकुंसविषाचास्थोचतिष्ठन् ता तस्मात् ते पराभवन् विप्रभ्योगिते समभवन् तदेशाभ्यणोक्ता आपो हयद्हरेऽर्निर्भमायन् दक्षन् दधाना जगन्ते स्वयम्भम् तथैव सज्यन्तसर्गाः अभ्यो वा इदकम् समभूत् तस्माविदकम् सर्वम् भ्रह्मसः स्वयम् भजी तस्मादिदकम् सर्वकम् शिशिरमिवा ध्रुवमिवा भवत् प्रजापतिर्वावदत् आत्मा आत्मानम् विधाय तदेवानुप्राविशत् तदेशाभ्यणोमुक्ता विधाय लोकाय विधाय भूतानि विधाय सर्वाः प्रतिशोदिशश्च प्रजापतिपसपजायतस्य आत्मनात्मानमभितम् विवेशयति सर्वमेवेदमाप्त्वा सर्वमवरुद्ध्य तदेवन्प्रविशति यगेवम् वेद चतुष्टय्यापो गृह्णाति तत्त्वारिवापाकम् रूपाणि मेघो विद्युत् स्तनेत्रवृष्टिः तान्ेवावरुन्धे आतपतिपश्या गृह्णाति ताः पुरस्तादुपदधाति आपः मुखदेव ब्रह्मवर्तजमवर्धे असूहान्मुखता ब्रह्मवर्तसिधरः कोऽप्या गृह्णादि का दक्षिणजवपदधादे एतावै तेजस्विने लापः एतदेवास्य दक्षिणतवदधाति तस्माद्दक्षिणार्थस्तेजस्वितरः स्थावरा गृह्णादि काः पश्चादुपदधाति प्रतिष्ठिता वै स्थावराः पश्चादेव प्रतिष्ठते वहन्तेर्गृह्णादे तावुत्तरत उपदधाते ओजधा वागेता वहन्ते दिवोद्गदे दिव आगोचदे दिवधावन्तेः ओजये वा अस्योत्तरतो दधादे तस्मादुत्तरोऽर्थवोजस्मितलः सम्भार्या वै सम्भार्याः अस्यामेव प्रतिष्ठते वल्बल्या गृह्णादे तावुपरिष्टादुपादधादे असौ वैमल्वल्याः अमुष्यामेव प्रतिष्ठति रिक्षोपदधाति रिक्षुवा आपः अन्नम् वा आपः अर्भ्यो वा अन्नम् जायते यदेवाभ्यो अन्नम् जायते अदवरुन्धे तम् वा एतवरुणाः केतवोपातलशनार्षयो जन्वन् तस्मादारुणकेतुकः अदेशाभ्यनो भोक्ता एतवरुणाशश्च ऋषयोपातलशनाः पुष्टागम् सुरथाहि अपाहितादो सहस्रथाय समिति शरदश्चैव प्रचतिष्ठति एकमग्न्यते यौतेनेवम् वेद जामदग्नेमुत्तरवेदेघात्वा अभागम् पूरयति अभागम् सर्वत्वाय पुष्करपर्णकम् ऋक्मम् पुरुषमित्युपदधाति तपो वै पुष्करपर्णम् सत्यगम् ऋग्मः अमृतम् पुरुषः एतावद्वावास्ति यावदेशदे यावदेवास्ते तदवृन्धे पूर्णमुपदधानि अपामेव मेषमवरुन्धे अथोः स्वर्गस्य लोकस्य समह्यै आपमापापः सर्वाः अस्मादस्माजितोमुदः अग्न्यभायश्च तौर्यश्चवारश्वुभयः लोकम् वृणक्षित्रम् वृण यास्त्यश्रः परमुजाः इन्द्रघोषा वासुभिरेव केवले पञ्चविदयवदधारे पान्तोऽग्नेः यावानैव लोकम् प्रणयाद्वितीयामवदधारे पञ्चपदा वे विराय तस्याबाह्यम् पादः अन्तरिक्षम् पादः जयोः पादः पिशः पादः मनोरजापादः विराजेव प्रतिष्ठते ृते यौजयनमेवम् वेद अज्ञम् प्रणीयोपधमाधाय नमभितरेत अभेष्टक उपदधाय अज्ञहो त्रेदविषपोर्णपासलोः वशबन्धे चातुर्माश्येषु अथो आहुः सर्वेण यज्ञकृदुष्कृजे अथ हस्माहारणस्मायम्भवः सा मित्रः सर्वोज्ञम् मन्यामहे नानापाघेतेहम् हे विचारे कमग्ते क्षत्रियमद्यञ्चिन्वाणः कवद्यञ्चिनुते सात्रमद्यञ्चिन्वानः कवग्तेनः कवञ्चिनुते शासुरमग्न्वाणः कवञ्चिनुते वैशमद्यञ्चिन्वाणः कवग्नुतेवाक्यमासमग्निञ्चिन्वाणः कवञ्चिनुतेणकेटकमग्न्वाण इति विषाणमुसज्ञस्फालयेत् अन्येता श्रेण्यः अस्मान्नानिषज्ञः सोत्तरवेदशुक्रदुषिजिन्वेद उत्तरवेद्यागत्यग्निश्रीयते प्रजाकामश्चिन् वेद राजापत्यो वादेशो अज्ञे राजापत्याः प्रजाः प्रजावान्भवये त एवम् वेद पशुकामश्चिन्वेद सञ्ज्ञानम् वारे तत्पशूनाम् यदा वः पशूनामेव सञ्ज्ञाने ज्ञते पशुभान् भवति य एवम् वेद वृष्टिकामश्चिन्वेद आभो वै वृष्टिः वर्गन्यावर्षुको भवति य एवम् वेद आमया वीचिन्वीत आपो वै वेणुजम् वेणुजमेवास्मैकरोति सर्वमाजिरेति अभिचरज्ञश्चिन्वीद वर्गमेव भ्राजुर्वेभ्यप्रहरति स्तृदयेन तेजस्कामोऽक्षस्कामः ब्रह्मवर्गदकामः स्वर्गकामश्चिन्विता एतावद्वावास्ति यावदेत यावदेवास्ते तदवृन्धे तस्यैरद्वृतम् परिणतिनधावेत् अमृतम् वा आवह अमृतस्यानन्दनित्यै नाप्समूत्रपुरेषम् कुर्यात् न निष्ठीवेत् स्नायात्ो वा देशोग्निः एतस्याज्ञेन निदाहायुष्करमर्णादिगरण्यम् वा तिष्ठेत् एतस्याज्ञेण व्यालोहाय न को नस्याश्नीयात् मोदकस्य अघातुकान्येन मोदकानि भवन्ति अघातुकावः न एतमग्निम् किमते यौतेनमेवम् वेद किमानकम् भुवनाशेष इन्द्रश्च विश्वेदेवाः यज्ञम् च रन्पञ्च प्रजाम् च आदित्येन्द्रः सहसेषु धातु आदित्येन्द्रः सगणामृद्धिः अस्माकम् भवत्तातनूनाम् आप्लवस्वप्रप्लवस्व आण्डीभवरमामोः सुखादीन् माजले ख्यास्पदे उत्तिष्ठतमा स्वप्ता अग्निमिच्छम् भारताः राज्ञः सोमस्य दृष्टासः सौर्येण दुजोषः युवासुभासाः अष्टाचक्रणवद्वारा देवानाम् पूरजोध्या अस्यागम् हिण्यकोषः स्वर्गो लोकोज्योजामृतः वेदा अमृतेनामृताम् पुरीम् तस्मै ब्रह्म च ब्रह्मा च आयस्केत्यम् प्रजान्त विभ्राजपाकुम्भरिणीम् शशासम्भरीवृता पुरगम्भिरण्मयीम् ब्रह्मा विवेशा पराजिता परागेत्यज्यामयी परागेत्यनाशयी विषजामुत्तजान्वेति विद्वान् देवासुरानुभयान् यत्कुमारीमन्त्रयते यद्योषत्यत्पतिव्रताः दे, अरित्यञ्च क्रियते अग्निस्तदनुवेधरे अजदातश्च जातश्च यज्वानो येऽप्य यद्वः स्वर्यन्तो नापेक्षन्ते ये विदुः स्थिता इव सह्यन्ति अश्विभिः समुदीरिताः अस्माल्लोकायमस्माच्च यदिभेदात् अश्निभिः अभेदभेदभिधर्पदातः एतस्थपुराणाय च अहोभिरभ्यभिरक्तिभिर्व्यक्तम् यमो ददात्वभानमस्मै नृमणन्तलभाः न कष्टालेन कष्टजाः कुमारेषु कलेनेषु जारिणेषु जने हिताः एतपीडाण्डपीताः अङ्गारेण जनेभूताः भजान् पुत्रपौत्रकान् यमराजकान् शतमेण्डशरदः अलो च वरुणस्यास्मिनोरज्ञेः मरुदाहञ्च विहायसा कामप्रयमडम्बे अस्तु सत्येवाश्विधनानः हीनागो ब्रह्मेश्ववो राजोधनम् पुत्रानापो देवीविहाहिता विशेषम् ग्रध्वश्रीर्ष्णीम् च अपेतो निहृदयम्भसः परिपासग्श्वेतपुक्षम् विजङ्घगुन्दमलोदरम् सकारवाच्यायया सह अग्नेनादयसन्दशः ये इर्ष्या भूये बुभुक्ष्वा अनन्यम् कृत्याञ्च दीशिरे रचेन किम् शुकावता अग्नेनामेव सन्तृशः पर्जन्यायप्रगायता पुरस्पुत्राय मेथिलेः सदो यवसमिच्छदौ इदम् वयः पर्जन्यायश्वदेः रुतोऽस्मन तद्दियोत मयोभोन्वातो विश्वकर्कयः सन्तस्मे श्रीप्पलामोढेर्देवगोपाः गवाः गणोत्यनुपदा प्रजन्यः पुरुषीणाः पुनर्मामेत्विन्द्रियम् पुनरायः पुनर्भगः पुनर्ब्राह्मणमेतुमा पुनर्द्रविणमेतुमा यन्मैवेदपृथिवीमस्कारे यदोषेरक्ष्यतज्ञलाभः इदम् तत् पुनरागते दे। देधायित्वाय वर्चसे यन्मेरेतः प्रसिध्यते तेन <Sres> सह प्रजलन्तु अभ्यस्तिरोधाजायता तवैश्रवणः सदा विरोधे गतवत्रान्नः हे अपोष्णन्ति केचन राष्ट्रेमायाम् वैश्रवणः प्रथगम् दहस्रवन्धुरम् पुरुश्चक्रगम् दहस्राश्वम् आस्थायायादिनो बलिम् कस्मैभूतानि बलिमावहन्ति धनङ्गावो हस्ति हिरण्यमश्वान् तथा वसुमतो यज्ञस्य जम् क्रौञ्चे च वैरागेश महागिरौलकमन्ता स्वकुम्भार्यन्नकरन्तव विधिमन्त्राः कल्पोदबोद्धम्बलिकुम्भरेभये विलेखौ वेलायाजम् बलिः सर्वभूताधिपतलेन मलिते असबलिकम्भतोपतिष्ठेत क्षत्रम् क्षत्रम् वैश्रवणः ब्राह्मणा वजग्रस्मः नमस्तेऽस्तु माहिकंसेः अस्मात्प्रविष्टाण्डमध्येति अशदमग्निमादथेत यस्मिन्नेतत्कर्मप्रयुञ्जीत यरो साधूः यरो साभवः यरोधास्वः तिरोधाभोद्भवस्वः सर्वेषाम् लोकानामाधिपत्ये सीतेति अशतमग्निबञ्जीत यस्मिन्नेतत्कर्म प्रयुञ्जीत तिरोधाभूस्वाहा तिरोधाभुवः स्वाहा तिरोधास्वस्वाहा तिरोधाभोद्भुवस्व स्वाहा यस्मिन्नस्य काले सर्वाः नापवेगो अभिब्राह्मणमुखीनाः अस्मिन्नन्धः काले प्रयुञ्जीता परस्वप्तजना देवी मास्मप्रमाद्यन्तमाध्यापयेत् सर्वार्थाः सिध्यन्ते यगेवम् वेद क्षुध्यम् इदमजानताम् सर्वार्थान् सिद्ध्यन्ते यस्ते विघातुकोऽभ्याता ममान्तरहृदगेश्वरः तस्मात् मम ग्नपिण्डम् जहोमि समेऽर्थान्मा विमधेत् मयिष्वाहा राजाहि राजागपृथक्साहिने नमो वयम् वैयेश्वमणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वैयेश्वमणो ददातु कुपेराग वैश्वमणाय महाराजाय नमः केतवो अरुणासश्च ऋषयोवातलशनाः प्रतिष्ठापुंशदशा हि समाहितासो सह श्रद्धायधम् शिवानिः सन्तमाभवन्तु दिव्याः बमोषदयः समृकाधरस्वती माते व्योमसन्तिशि संवत्सरमेतद्वतञ्चले तौ वामासौ नियमः समासेन तस्मिन्नियमविशेषाः ऋषभणमुदकोपस्पर्शि चतुर्थकालपालभक्तः स्यात् अहर्वाभेक्षमस्मीयात् औदुम्बरेभ्यः समेभ्यरग्निम् परिकरेत् पुनर्वामेत्युन्द्रियमित्येते अनुवागेन बद्धतपरिबोधाभिरभ्यः कार्यम् कुर्वेत अवन्धयवान् अनदेवायवेशौर्याय ब्रह्मणे प्रजापदये चन्द्रपदे नक्षत्रेभ्यः ततोभ्यः संवत्सराय अरुणायारुणाय जिव्रतहोमाः प्रवर्ग्यवदादेशः अरुणाक्तान्दः अरण्येऽधिरन् भद्रङ्गन्नेभित्वा महानाम्नेभृतगुंसग्रस्पस्य तमाचार्यो दद्यात् शिवाश्रन्दमेत्योटधीरालभते स्मृणीगेति भूमिम् एवमवर्गे हे दक्षिणा रघुं संवादश्च क्षोमम् अन्यद्वा शुक्लम् यथा शक्ति वा एवज्ञस्माद् जागधर्मेण अरण्येऽधीज जा। तपस्वी पुन्या भवति तपस्वी पुन्या भवति तथा तु ओम् शान्तिः नमोस्तग् पृथिव्ये नमोभ्यः नमो वाचे नमो वाचस्पदये नमो विष्णवे मृगते करोमि ॐ शान्तिः सह वै देवानां चासुराणाञ्च यज्ञौ प्रददावास्तां वैज्ञ स्वर्गं लोकमेश्यामयते सुरा सन्नपसैवा ब्रह्मचर्येण तपसैव देवास्ते सुरामुगस्तेन प्राजानगृस्ते पराभवन्तेन स्वर्गल् लोकमायन् प्रसृतेन वैयज्ञेन देवा स्वर्गल् लोकमायन्न पृथुतेनवान् पराभावयन् प्रसृताः वैयज्ञाः वेदिनाय नुभवेदना यत्किञ्च ब्राह्मणानि ज्ञापवेत्येव दत्तस्माहात्यज्ञापवेत्ये वासो वा दक्षिणत उपवे दक्षिणम् वा दत्ते सव्यमितेज्ञापवेदमेतदेव विपरेदम् प्राजीनावेशम् संवेदम् वानुषम् ्रमतिष्ठन् ददान् प्रजामन्त्रेणीता ष्ठन्त रक्षागस्यात्यवालेतानि रक्षागं जि गायत्रजाभिमन्त्रिते ब्रह्मवादिनः पूर्वाभिमुखा सन्ध्याया गायत्रजाभिमन्त्रिता आपोर्दम्पन्दिता वेता आपो वज्रीभोत् तानि रक्षागं चि मन्दयहारुणे प्रदक्षिणम् प्रक्रमन्दिलेन वानमवधोऽन्वन्त्यन्द्रन्दमादित्यमभिध्यायम् कुर्वन् ब्राह्मणो विद्वान् सकलम् भद्रवशेवादिब्रह्मैवसम् ब्रह्माप्य एवम् वेद यद्देवादेव कर्मा वयम् आदित्यास्तस्मान् मामम् च दत्तस्तत्ते न मामिता ्यायद्वाचानृतमोदिमा अस्मान्नैमुञ्च विश्वे देवाः सदोषसः रतेन द्यावापृथिवीरतेन प्रकुंसरस्पति प्रदानः वाक्येण सोव्यत्किञ्चा नृतमोदिमा इन्द्राग्नित्रावरुणौ सोमो दाता बृहस्पतिः एनामुन्द्रेण सोयदन्यकृतमालिमा सजा साजांसा ज्यायश्चकुंसा ऋतवाकनीयतः अनादृष्टम् देवकसञ्जतेनस्तस्मात्तमस्माञ्जातवेद मम मध्ये पावुभ्या मोरुभ्यामक्षीद्भ्याकम् अज्ञन्मातस्मादेन सोगारिकवत्यप्रमुद्रुष्कृता येन त्रतो अन्नवान्यर्बभूवयेन सूर्यन्तमसोऽयम् मोच येनेन्द्रविश्वाज आदराते स्तेनाहञ्ज्योतिरा ज्योतिरानशानाहाक्षे यत्पुजे जमप्रदेत्तम्मयेहयेन यमस्य निधिनादरामि एतत्तदग्ने अरुणो भवामि जीवन्नेव प्रचदत्ते दधामि यन्मयि माता यदामित्यते दिविजाता यदा पमेव वृणतत्त्वायामि त्वन्नो तत्त्वन्नो अग्ने त्वमग्ने अयासि यतदेभ्यञ्जनमहम् मभोवादित्संवादम् जगदजनेभ्यः अग्निर्मादस्मायन्तश्च संविधानो प्रपुञ्चता यद्धस्ताभ्याम् जगरगद्भ्याक्षाणाम् मग्नमुपनिमानः अग्रम्बश्चाजलाटलान्यक्षरदा वृणुदत्ता वृणानि अग्रम्बश्च रावृत्तमनुदत्तमेधले लोकेलाय अपदे वरुण दत्त्वायामि त्वन्नोर्पन्नाग्ने हुलो विजतोनः े हेस्मद्यक्ष्मनागजो दूराद्दूरमजीजतम् निर्यक्ष्मजीजते कृत्यारगतिम् च हेन योऽस्मत्समर्च्छादयमस्मै पृथु वामजेंसा नघनेन च हेनान्योस्मत्समर्च्छादयमस्मै पृथु वामजे संवर्तता वयसादन्तनोभिरयङ्गम् शिवेन ृदव्यम् विदेव पुत्रमभिरक्षदाम् कृषतकम् निषाधि देवा आस्मादिदेक्षविश्वेदेवागरदत्तय्यसाहृदौर्यपसहार्जविरञ्जनः आरेना अग्नेपवस्वस्वपा स्मयवर्तसुवीर्यम् वैपोषम् अग्निल्यः पवमानः पाञ्चजन्यः पुरोहितःगजम् अग्ने जातान् प्रणुदानस्तपत्रान् प्रत्यजाताञ्जातवेदोणुजस्व अस्मे देशुमनाहे लच्छन्मन् जयस्यामत्रिवरूथवद्भौ समसा जातान् प्रणुदानस्तपत्नान् प्रत्यजाताञ्जा अधिना प्रोदृगमणस्य मानो वयज्ञणुदानस्तपत्नान् आज्ञेयो नाभिंसदि काकस्त्वम् वृत्रहञ्जनिव स्वस्मभ्यमाभरा आज्ञेयो नाभिदातिजगतमानोश्च निष्ट्यः अदम् वेगम् समिधम् गत्वाऽपि जध्वजे यो नश्पादशपदो यश्च न शपदशपादस्मै निश्च पावकम् समोहता यो नः सपत्नो योर्णामर्ताभि विद्मस् एव प्रक्षायतो मादस्योच्छेजकिञ्चन सर्वागस्ताग्गस्ताहन्वेश्मये दमाम् योऽस्मभ्यमरादीयाद्यस्तु नोद्वेषः निन्दाद्योऽस्मान्यप्साः च सर्वाकस्तान्मश्मशाकुरु सकंसिलम् वे ब्रह्म सकंसिलम् वेर्या अम्बलम् सकंशिलम् क्षत्रम् वेष्म्यस्याहमस्मि पुरोहितः उदेशाम् बाहुपदिनमद्वर्चो सोवलम् क्षिणामि ब्रह्मणा मित्रानुन्नयामि स्वाहा पुनर्मः पुनरायम् भागात् पुनश्चक्षः पुनः श्रोत्रम् भागात् पुनः प्राणः पुनराभूतम् भागात् पुनश्चेत्तम् पुनरलाधीनम् भागात् वैश्वानरो मेदभ्यस्तनोपा अपबाधताम् दरितानि विश्वा वेश्वानराय प्रतिवेदयामो गिर्णयम् सङ्करो देवदासो ुञ्जातानरः पवित्रैर्यत्सङ्कर्यासा अनायानन्मनसा याजमानो यजत्रय नोत्स्वामि अवीयत्रिरौ नामदारके रेहामेकमोदनम् विश्वलोकान्कृतिबन्धान्मुञ्जातिबद्धकम् योनेरिव प्रच्युतोगर्भः सर्वान्व सप्रजानम् प्रगर्भे च विद्वान् प्रजापयस्य अस्माभिस्तादच्छेन्दुमनुसञ्जरेमन्दमन्वेगमनुसञ्जरम् त्रिये दत्तम् विद्यमायन्ध्वेगप्रयच्छादारञ्जयच्छक्रमाकुन्तस्वर्गे राम् आरभे गोत्र एकजागा यदन्तरिक्षम् पृथिवे मुद्यायन्वादरम् पितरम् वादयेगम् शिवाग्निस्वादेन सोगालभपत्यपुन्नो नेषु भोगनम् मातादिकर्मन्तरिक्नमभियस्तेन योन्नः पुता विषयाच्चम्भवानिजामित्त्वा मामि वत्सि लोकात् यत्र सुहार्दृतम् देव्यायलोकम् तन्वा अश्लोणाङ्गेन कृता स्वर्गेणत्र वश्येन पुनरम् च पुत्रम् यदन्न देवादास्कन्नवाकरिष्यन् यद्देवानाम् चक्षुष्यागो अस्ति कृणोतु यदन्नवर्मिव बुधा विलोपम् वातोमीवास्तिकदेवविन्दप्रतिजग्राहमद्यम् वा तस्मात् ऋणम् कृणोतु मनसा वाचा कृतमेनः कदाचना सर्वस्मा तस्मान् णावोर्धवान्ते प्रविजकोष्माण्डागस्ते यामे ब्रमन् पवित्रोदय नारे मदस्यामे वा देवे ेनो द्रोणहत्यायास्तु स्म मोक्षद्वैतम् भूयात् पूतोदेव लोकान् समश्रुते ेजाद्योदैव भ्रूणहत्यावात्मानं क्षत भवत्सरा देवने चतुर् ्रात्रेक्षुत भवति चुतर्विकंशजरर्थवासाः संवत्सरः संवत्सरा देवः पानं बुनेदय द्वादशरात्रे एद्वीक्ष भवति द्वादशमासा संवत्सरः संवत्सरा देवात् पानं बुने दे षड्रात्रेक्ष भवति षड् भारदव संवत्सरस्संवत्सरा देवात् पानं बुने दे जरात्रे एपदा गायत्री गायत्रिया देवात् पानं ब्राह्मणस्य प्रदयभागोरारण्यश्चामेतद्वलम्कामेत्यनु प्रदयेदात्मनोऽ हवे प्रत्येकस्तप्यमानान् ब्रह्म स्वयम् व्यक्तन्तान् देवतापातिष्ठन्तमाहरन्ते यत्सामानि यत् ब्राह्मणा पुराणानि कल्पान् गासाना ृदयो देवाना भवन्त देवाः स्वर्गम् लोकमाय ब्रह्मणः सायुज्यमषयोगच्छन् पञ्चमादे महायज्ञा सुप्रदायन्ते सन्धिष्ठन्ते देवयज्ञ ब्रह्म यज्ञे देदज्ञः सन्धिष्ठते पुत्रयज्ञः सन्धिष्ठते भूतेभ्य वयं तद्भोधयज्ञः सन्धिष्ठते ब्राह्मणेभ्यो नन्द्यः सन्धिष्ठते स्वाहाय कौल्यायद्ब्राह्मणानिर्गासान् पुराणानि कल्पान् गासा नाराधर्मेल्याश्च ब्राह्मणानि पुराणानि कल्पान्धकम् मेदावतिभिरेव तद्देवागस्तरेण ब्रह्मवेन च तर्पयन्ति ृदयबेन ब्राह्मणानिकासान् पुराजमधितापां वार्भा शरदमेव ब्रह्मगुरुते दक्षिणात्तरोपाणी पादो कृता पवित्रावयद्वैजस्त्रीं विद्यां देना त्याहेद्वये वाचः सत्यं यदेव वाचः सत्यं जत्प्रागुङ्त्रेत्रे न वाणु एव प्रतिपदासन्द स्वाध्यागमधी यदिपानगम् वेदेह स्माः शौचान्गो चष्ठन् मृतम् वृजन् मृदाधेन स्वाध्यागन्तपस्वी वन्या भवति च एवम् विद्वान् स्वाध्यायमधीते नमो ब्रह्मणे नमोऽस्त्वज्ञे नमो पृथव्ये नमोषधेभ्यः नमो जे नमो नमो तासो वाचस्पदेशाभ्युक्ता चित्रम् देवानामुदगादने कञ्चक्षुर्मित्रस्य वरुणस्याग्नेः प्राज्ञा वाकम् सूर्य आत्मा जगतश्च प्राक् सा तस्य वा एतस्य यज्ञस्य मेघो ह विद्वानं विद्युदग्ने वाग्याहमापये तपो विष्पायतिनागगं रहत्युत्तमस्मानारामं भवन्त माम् वित्तस्य पूर्णात्तत्स्वर्गम् लोकम् जयद तावन्तम् लोकम् जयद् भूयागुन्दम् चा क्षय्यम् चाकूलम् मृत्यम् जयद् ब्रह्मणः साविध्यम् गच्छति तस्य वा एतस्य यज्ञस्य द्वावनध्यागो यदात्मासु जर्यः समर्थद्दैवतानु यगेवम् विद्वान् महारात्र उदस्तुति ते व्रजग्रस्तिष्ठन्दासीनश्यगानोरण्ये ग्रामे भ्यागमधीते सर्वान् लोके अर्णास्याः वेरेनादृगानाः सर्वाज्ञं मे जातं पाप्मा जग्राहजन्देवाहृदय पाप्मानमपानां यज्ञेन यज्ञश्च दक्षिणा दक्षिणानां ब्राह्मणेन ब्राह्मणन्द्रस्वाध्यायेनापहत पात्मा स्वाध्यायोगेव विभ्रह्मा एतत्कञो नोत्यभागो वा त्रिभवत्यभागो यस्ति ुक्ता सखास्य वाच्यविभागो अस्तिकम् शृणोत् प्रमेण सुकृतस्य पन्थामजितस्मात्त्वाध्यायोम् कृतमधीतेन तेन भवत्यस्य सायुज्यम् गच्छति देशाभ्युक्ता हे अर्वानुदवा पुराणे वेदम् विद्वां समभिलोपदन्त्यादित्यमेव परिवदन्ति सर्वे अव्यन् विधीयम् प्रदेयम् चै देवतास्ताः सर्वा वेदविधिब्राह्मणे तस्मात् ब्राह्मणेभ्यो वेदविद्यादिवेदि वे नमस्कुर्यान्नास्वीलङ्गे ते देवता एव देवता प्रीणादि ृच्छदयि वबा येधप्रेमरिच्य देवो यादयति प्रतिभा गृह्णादि यादयत्ताध्यायम् वेदमधित्रेङ्गायत्रीमन्वादिरे दक्षिणावरेणैव वरज्ञ स्मृणोत्यात्पाहि वनः दुखे हवागे शम् दागम् सुयोजयज्ञ कृता जाजयेत्सौरण्यम् परेत्य सुजो देशे स्वाध्यायमेव नीर तस्या नन्दे ध्या स्थानमुपसदानगम् सत्या वा प्राणो हविस्ता वा यज्ञ प्राणदक्षिणोऽनन्ददक्षिणः समर्धतरः तिथाविकीर्णे प्रविशति ब्रह्मवादिना वरदप्राणेन बृहस्पति ब्रह्मवर्तनेणाग्निम् प्रायश्चम् विधाञ्चकार्यमाभास्याज्ञाज्ञम् प्रणेयापदमासागाज्ञश्चादञ्जोतिकामावगीर्णोऽस्नमगीर्नोऽस्वाद्रग् स्वाहेत्तमृतम्बाज्यमृतमेवात्पन्धत्व हत्वा प्रयताञ्जलिमन्त्रेण समेन्द्रः सम्बहस्पतेः यमग्निः सृङ्गत्वाजा चायुष्पन्दरास्मै मरदः प्राणाजम् एवात्मानवायुरेवात्पञ्च दक्षिणा वरेणैवज्ञस्पुणो चात्मायुवरः प्रभद्ये भो प्रभे स्वप्रभद्ये भोर्भव स्वप्रभद्दे ब्रह्म प्रभे ब्रह्मघोशम् प्रभद्ये मृतम् प्रभद्ये प्रभद्वे ब्रह्मघोषिङ्गम् प्रभद्ये देवानम् प्रभद्ये देव पुरम् प्रभद्ये परे मृतो परे मृतो ब्रह्मणा वर्मणाहं जैरुकशोर्धानम् ब्रह्मोक्तराहनुर्यज्ञोयम् दा वक्त्रविमध्यम् व्यत्रा ौ प्रमेयते नास्वप्रमेयते नानपत्यप्रमेयेन ध्रुवश्चक्षिमं भोदानामधिमजत्वं भूतानाविष्टेष्ठयुक्तां न्देण नमस्ते वः सर्वन्देन मो नमः शिशुकुमारायणः चे द्विजयाश्च देवदस्यां प्रतिवदं देदाभ्यश्च न मौ नमो दक्षिणायै द्विषयाश्च देवता वेदस्यां प्रयवदं देदाभ्यश्च न मौनप्रजी त्रिजेयाश्च देवता येदस्यां प्रतिवदं देदाभ्यश्च न मौनमवदीत्विषयाश्च देवता वेदस्यां प्रतिवदं नमो धराय षेयाश्च देवता एतस्याम् प्रिमसन्देताभ्यश्च नमो वान्तरायै ऋषेयाश्च देवता एतस्याम् प्रतिमसन्देताभ्यश्च न भो नमो गङ्गायमुनयाम् अध्येयेव सन्धिलेमे प्रसन्नात्मानश्चिरम् जीवितम् नमो गङ्गायमुनयोर्मुनेभ्यश्च न भो नमो गङ्गायमुनयोर्मुनेभ्यश्च नमः ्रह्मणे नमो अष्टये नमो पृथिव्येण ममोषधेभ्यः नमो वाचे नमो वाचस्पदये नमो, नमो, नमो विष्णवेगृहदे कलोयि ओम ओम् शान्ति त्रिः त्रिःशान्तिः ॐरावृणे महे लालि यज्ञाय लाहि यज्ञपदये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानजेभ्यः ओर्भञ्जिगादुभेडजम् छन्नास्तद्विपदेः षण्जतुष्पदे ओम् शान्तिः शान्तिः शान्तिः चरित्रिसृक् चित्तमाज्ञम् वाग्वेदिः आधेदम्बरिः तेतोग्निः विज्ञातमग्निः वाग्जर्होदाः मन उपवक्ताः प्राणोहरिः सामाद्धर्यः वाचस्पते विधे नामन् विधेमते नाम विधेष्ठमस्माकम् नाम वाचस्पतिः स्वामम् पिबतु आस्मासु सम्बन्धाः स्वाहा पृथिवीहृता व्यवब्धर्योद्रोग्ने बृहस्पतिरुपभक्ता वाचस्पदे वाचोवीर्येण सम्भृतमेना यक्षसे विजमानायवार्यम् आसुमस्करस्मै पादस्पति सोमम् विपदे निन्द्रमिन्द्रियाय स्वाहा अग्निरहोदाः अश्विनाः ध्वर्यो द्रष्टाग्ने मित्रोपभक्ता सोमः सोमस्य पुरोगाः शुक्रः शुक्रस्य पुरोगाः श्रातास्त इन्द्रसोमाः मातापेहवनश्रुतस्वाहायन्ते चक्षुः पाकम् प्राणः याम् पृष्ठम् अन्तरिक्षमात्मा अङ्गैर्यज्ञम् पृथिवेगम् शरीरैः पाकस्पदयच्छिद्रया वाचा अरच्छिद्रया जुह्वा दिविदेवावृथगुहोत्रामेरयस्व स्वाहा